अथ एकोनाशीतितमोऽध्यायः शुक्र उवाच मम विद्या हि निर्द्वन्द्व ऐश्वर्ये हि फलम् मम दैन्यम् साक्ष्यम् च दैह्यम् नास्ति मे यद धर्मतः यः नरो नित्यम् अतिवादाम् स्तिक्षते देवयानि विजानीहि तेन सर्वमिदम् यः समुत्पतितम् क्रोधम् निगृह्णाति हयम् यथा सयन्तेत्युच्यते सद्भिः न अक्रोधेन निरस्यति देवयानि तेन सर्वमिदम् जितम् यः समुत्पतितम् क्रोधम् शमयेह निरस्यति स वै उच्यते यः सन्धारयते मन्युम् योतिवादांस्ति यश्च तप्तो न तपति दृढम् सोऽर्थस्य भाजनम् यो यजेदपरिश्रान्तो मासि मासि शतम् समाः न क्रुद्ध्येद्यश्च सर्वस्य तयोरक्रोधनोऽधिकः क्रुद्धस्य निष्फलान्येव दानयज्ञतपांसि तस्मादक्रोधने यज्ञः तपोदानम् महाफलम् न पूतो न तपस्वी च न यज्वा न च कर्म क्रोधस्य यो वशम् गच्छेत् तस्य लोकद्वयम् न च पुत्रभृत्यसुहृन्मित्रभार्या धर्मश्च सत्यता तस्यैतान्यप यास्यन्ति क्रोधशीलस्य निश्चितम् यत्कुमाराः कुमार्यश्च वैरम् कुर्युरचेतसः न तत्प्राज्ञो न कुर्वीत न विदुस्ते बलाबलम् देवयान्युवाच वेदाहन्तात बालापि धर्माणान्यदिहान्तरम् अक्रोधे चातिवादे च वेद चापि बलाबलम् शिष्यस्याशिष्यवृत्तेस्तु न तस्मात् सङ्कीर्ण वासो मम पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च न तेषु निवसेत् प्राज्ञः श्रेयोर्थे पापबुद्धिषो येत्वे त्वेनमभिजानन्ति वृत्तेनाभिजनेन वा तेषु साधुषु वस्तव्यम् स वासश्रेष्ठ उच्यते सुयन्त्रितावरा नित्यम् विहीनाश्च धनैर्नराः दुर्वृत्ताः पापकर्माणः चाण्डालाधनिनोऽपि वा न कारणाद्ये द्विषन्ति परिवादम् न तत्र निवासोऽस्ति पाप्मभिः व्रजेत् सुकृते दुष्कृते वापि यत्र सज्जति योदरः ध्रुवम् रतिर्भवेत् तत्र तस्माद् दोषम् न रोचयेत् वाग्दुरुक्तम् महाघोरम् दुहितुर्भृषपर्वणः मम अग्निकामयि वारणिम् नह्यतो दुष्करतरं। दुष्करतरम् मन्ये लोकेष्वपितृषु निःसंशयोऽभिशेषेण परुषम् मर्म चिन्तनम् सुहृन्मित्रजनास्तेषु सौहृदम् न च कुर्वते यः स पत्नः शोभनन्तस्य इति विद्वज्जना अवमानमवाप्नोति शनैर्नीतेषु संगतः वाक्सायका वदनान्निष्पतन्ति यैराहतः शोतति राग्रहाणि शनैर्दुःखम् शास्त्रविषाग्निदालम् तान् पण्डितोऽनावृसजेत्परेषु संरोहति शरैर्विद्धम् वनम् परशुनाहतम् वाचा दुरुक्तम् बीभत्सम् न संरोहति वा क्षतम् इति श्रीमहाभारते आदिपर्वणि सम्भवपद्मणि ययात्युपाख्याने या एकोनाशीतितमोऽध्यायः